अथ चतुर्थोऽध्यायः श्रीभगवानुवाच इमं विवस्वते योगम् प्रोक्तवानहमव्ययम् विवस्वान्मनवे प्राह मनुरिक्ष्वा कवे ब्रवीद् एवं परम्परा प्राप्तम् इमं राजर्षयो विदुः नेह नेहमहता योगो नष्टः परं तप स एवायम् मया तेद्य योगः प्रोक्तः पुरातनः भक्तोऽसि मे सखा चेति रहस्यम् ह्येतदुत्तमम् अर्जुन उवाच अपरम् भवतो जन्म परम् जन्म विवस्वतः कतमेतद्विजानीया त्वमादौ प्रोक्तवानिति श्रीभगवानुवाच बहूनि मे व्यतीतानि जन्मानि तव चार्जुन तान्यहं वेदसर्वाणि न त्वं वेत्थ परन्तप अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् प्रकृतिं स्वामधिष्ठाय सम्भवाम्यत्ममायय यदा यदाहि हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूना विनाशाय च दुष्कृता धर्मसंस्थापनार्थाय संभवामि युगे युगे जन्म दिव्यं च मे दिव्यम् एवं त्यक्त्वा देहम् पुनर्जन्म नैति मामेति सोऽर्जुन वीतरागभयक्रोधाः मन्मया मामुपाश्रिताः बहवो ज्ञानतपसा पूतामद्भावमागताः ये यथा माम् प्रपद्यन्ते तांस्तथैव भजाम्यहम् मम वर्त्मानुवर्तन्ते मनुष्याः पार्थसर्वशः काङ्क्षन्तः कर्मणाम् सिद्धिम् यजन्त इह देवताः क्षिप्रम् हि मानुषे लोके सिद्धिर्भवति कर्म जातुर्वर्ण्यम् मया सृष्टम् गुणकर्म तस्य कर्तारमपि माम् विध्यकर्तारमव्ययम् न माम् कर्माणि लिम्पन्ति न मे इति माम् योऽभिजानाति कर्मभिर्न स बध्यदे पूर्वैरपि मुमुक्षुभिः कुरु कर्मैव तस्मात् त्वम् पूर्वैः पूर्वतरम् कृतम् किम् कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः तत्ते कर्म प्रवक्ष्यामि यज्ञात्वा मोक्ष्यसे कर्मो ह्य बो बोद अकर्मण बोध गहनाको गति कर्म्यकर्मय पश्ये अकर्मण चम्मय स बुद्धिमाष्यु स युक्तकृष्ण कर्म कृत् यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ज्ञानाग्निदग्धकर्माणम् तमाहुः पण्डितं बुधाः नित्यतृप्तो निराश्रयः कर्मण्यभिर्ववृत्तोऽपि नैव किञ्चित् करोति सः निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः शारीरम् केवलम् कर्म कुर्वन्नाप्नोति किल् यदृच्छालाभसन्तुष्टः द्वन्द्वापेतो विमत्सरः समस्सिद्धावसिद्धौ च कृत्वापि न निबध्यते मुक्तस्य ज्ञानावस्थितचेतसः यज्ज्ञायाचर समग्रं प्रविलीयते ब्रह्मार्पणं ब्रह्महविः ब्रह्माग्नौ ब्रह्मणाहुतम् ब्रह्मैव तेन गन्तव्यम् ब्रह्म योगिनः पर्युपासते ब्रह्माग्नावपरे यज्ञम् यज्ञेनैवोपजुग्वी श्रोत्रादीन् इन्द्रियाण्यन्ये संयमाग्निषु जुग्वती शब्दादीन् विषयान् अन्ये इन्द्रियाग्निषु जुग्वती सर्वाणिन्द्रियकर्माणि णकर्माणि चापरे आत्मसंयमयोगाग्नौ जुज्वतिज्ञानदीपिते द्रव्ययज्ञास्तपो यज्ञाः योगयज्ञास्तथापरे स्वाध्यायर्यज्ञानयज्ञाश्च यतयः अपाने जुग्वति प्राणम् प्राणे पानम् तथा परे प्राणापानगतिरुद्ध्वा प्राणायामपरायणाः अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति सर्वेऽप्येते यज्ञविदः यज्ञज्ञक्षपितकल्मषाः यज्ञशिशिषामृतभुजः यान्ति ब्रह्म सनातनम् नायम् लोकोऽस्त्यर्यज्ञस्य कुतोऽन्यव्यकुरु सततमा एवं बहुविधा यज्ञाः वितता ब्रह्मणो मुखे कर्मजान् विद्धिदान् सर्वा एवम् ज्ञात्वा विमोक्ष्यसे श्रेयान् द्रव्यमयाद् यज्ञात् ज्ञानयज्ञः परन्तप सर्वम् पार्थ ज्ञाने परिसमप्यते तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया उपदेक्ष्यमिति ते ज्ञानम् ज्ञानिनस्तत्त्वदर्शिनः यज्ञात्वा न पुनर्मोहम् एवं यस्यसि पाण्डव येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यतो मयि अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः सर्वम् ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि यथेधांसि समिद्धोऽग्निः भस्मसात् कुरुतेऽद्युना ज्ञानाग्निसर्वकर्माणि भस्मसात् कुरुते तथा न हि ज्ञानेन सदृशम् पवित्रमिह विद्यते तत् स्वयम् योगसंसिद्धः कालेनात्मनि विन्दति श्रद्धा वाल्लभते ज्ञानम् तत्परः संयते ज्ञानम् लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति अज्ञश्च श्रद्धधानश्च संशयात्मा विनश्यति नायम् लोकोऽस्ति न परः न संशयात्मनः योगसन्न्यस्तकर्माणम् ज्ञानसञ्चिन्न संशयमि आत्मवन्तं न कर्मणि निबध्नन्ति धनञ्जय तस्मादज्ञानसम्भूतम् कृतम् ज्ञानासीनात्मनः चिचित्वैनं संशयमि योगम् आतिशिशोऽतिशिष ति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्याया योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानकर्मसन्न्यासयोगो नाम चतुर्थोऽध्यायः